मुद्गलपुराणं खण्डं सवन् विघ्नराजचरितम् अध्यायं फोर् शिवममासुरसमागमम् श्रीगणेशाय नमः कश्यप उवाच शम्बरं प्रणिपत्यादौ कथयामास विस्तराद वृत्तान्तं मम नामासौ हर्षितं तं चकारह मोहिनीं प्रददौ तस्मै स्वपुत्रीं शम्भरासुरः तया च संस्थिदोरे मे प्रियेस्तत्र ममासुरः तदस्वल्पे गते काले तं प्रणम्य महाभागं वृत्तान्तं प्रजगादः तदा शुक्रेण दैत्येन्द्राः प्रेरिता सर्व आययुः स्वयं शम्बरसं युक्तो जगामः ममासुरम् शुक्रम् समागदं दृष्ट्वा ममासुरः प्रतापवान् तं प्रणम्य महाभागं कृताञ्चलि पुरस्थितः पूजयामास तं विप्रं हर्षयुक्तेन चेतसा प्रणम्य चाज्ञया संस्थिदो भवद, तदो दैत्यगणास्तत्र समाजग्मुः प्रहर्षिताः तान् सर्वान् मानयामास यथाविधिममासुरः तदसर्वमदं गृह्य काव्यो नीतिविशारदः ब्राह्मणैस्तम् चाभिषिच्य दैत्याधीशं चकारः प्रधाना पञ्चतस्यापि बभूवुर्बलसंयुताः प्रेधक् कालः कलापश्च कालज्जिद्ध महाप्रिये दैत्या दानवभूपाश्च राक्षसादय आदराद हर्षयुक्ता बभूवुस्ते ततः स्वस्वगृहे गतः ममो भूम्यां निर्ममे नगरं परं सर्वशोभासमयुक्तं परिखावलयाङ्कितम् तत्र नानाजनाजग्मुर्वासार्थं विषयप्रियाः वर्णाश्रमयुधा सर्वे वासं चक्रुः प्रकर्षिताः दैत्याद्यास्तत्र सं रेजुर्विशेषेण निवासकाः राजा ममासुरस्तान्वै पालयामास हर्षिदः पुत्रौ द्वौ समशीलौ तु मोहिन्यां संबभूवधुः ममासुरान् महातेजो युक्तौ धर्मा धर्मधर्मौ तयोर्नाम चक्रिरे ब्राह्मणादयः ताभ्यां ममासुरोऽत्यन्तं रेजेतेजो युदो महान् ये कदा श्वशुरेणासौ समानाय्य महामुनिम् उशनसं प्रणम्यादौ जगादवचनं परं ममासुर उवाच तव स्वामिन्प्रसादेन समर्थोऽहं न संशयः प्रजेष्यामि विशेषेण ब्रह्माण्डं लोकसङ्कुलम् महायोगिन् त्वदाज्ञावशवर्तिनं दासं मां शाधि विप्रेन्द्र तवेच्छा कीदृशी भवेद कश्यप उवाच ममासुरस्य वाक्यं सश्रुत्वा वेदविदाम्बरः शुक्रस्थं भक्त्रिसंयुक्तम् दृष्टोवाच सुरूपिणम् शुक्र उवाच गणेशवरदानेन समर्थोऽसि महासुर गणेशभक्तिसंयुक्तो जय त्वं विश्वमञ्चसा कदाचिदपि दैत्ये षद्वेषं विघ्नेश्वरस्य च मा कुरुष्व तदा राज्यम् करिष्यसि विशेषतः तथेदि दैत्यमुख्यस्तम् जगाद हर्षसंयुगः ततो सुरान् समाहूय वृत्तमाकथयत्परं ते सर्वे हर्ष संयुक्ताः साधु साध्वब्रुवन्वजः द्विजैर्मुहूर्तमालोक्य निर्ययौ च ममासुरः अपारसेनया युक्तश्चदुरङ्गप्रभूतया नानावाहनगा दैत्या दैत्येन्द्रा रेजुरञ्जसा सन्नद्धा वीरमुख्याश्च समाजग्मुर्महासुरं महाबला महावीर्या मूलनेक्षमाहा क्षमा प्रधानायुर्युद्धमार्गज्ञायि पुत्राभ्यां संयुध स्वयं ममा सुरो रथे संस्थशुशोभे तेजसा युतः पृथ्वीं महावीरा जग्मुर्द्वीपसमन्वितां जित्वा क्षत्रगणान् सर्वान् स्ववशे तां चक्रिरे ततः पातालगा सर्वे शेषं जित्वा महाबलं ययुः स्वर्गेषु दैत्येन्द्र इन्द्रं क्रोध समन्विताः इन्द्रसुरगणैः सार्धं योद्धुं समुद्यतो भवद ऐरावदसमारूढो ययौ या सङ्ग्राममण्डलम् दैत्येन्द्रा शस्त्रसम्खादैर्मर्दयित्वा सुरेन्द्रकान् ममा सुरं व्ययुः सर्वे धृत्वेन्द्रं ते प्रकर्षिताः इन्द्रासनसमारूढो ममा सुरः प्रतापवान् शुशुभे दानवेन्द्रैः सेव्यमानः सदारुणैः सत्यलोकागतम् वीक्ष्य दूतम् सम्प्रेक्ष्य दारुणं योद्धुं समुद्यदं ज्ञात्वा वेधाः पपाल तद्भयाद विष्णुं गत्वा विधाता सौ रक्षरक्षेदि च ब्रवीद विष्णुस्तम् गृह्य शम्भुं वै शरणं प्रजगामः ज्ञात्वा वृत्तान्तमेवं सममासुरप्रदा भवान् कैलासमयययौ दैत्यैर्योद्धुम् महेश्वरेणः शिवलोके समायादो भानुशक्तिस्तथाभयाद विचार्य देवपासर्वे सर्वे दैत्येन्द्रं जग्मुरावृताः मरणे निश्चयम् कृत्वा शम्भुमुख्या सुरेश्वरः मम सुरं तं सन्नद्धा प्रययुस्ते सुलोचने मम सुरस्य सैन्यम् तु सन्नद्धं क्रोधसंयुतं देवेन्द्राणयोद्धुमायातं नानावीरप्रपालितं। ॐ तत्सदिति श्रीमदान्ध्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे सप्तमे खण्डे विघ्नराजचरिते शिव ममासुरसमागमो नाम चतुर्धोऽध्यायः ॐ